अथाष्टादशः सर्गः निर्वृत्ते तु क्रतो तस्मिन् हयमेधे महात्मनः प्रतिगृह्यामराभागान्प्रतिजग्मुर्यथा गतम् समाप्तदीक्षा नियमः पत्नीगणसमन्वितः प्रविवेशपुरीम् राजा सभृत्यबलवाहनः यथार्हम् पूजितास्तेन च पृथिवीश्वराः मुदिताः प्रययोर्देशान् प्रणम्यमुनिपुङ्गवम् श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात्ततः बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि च काशिरे गतेषु पृथिवीशेषु राजा दशरथः पुनः प्रविवेशपुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् शान्तया प्रयौ सार्धमृष्यशृङ्गस्व पूजितः अन्वीयमानो राज्ञा च सानुयात्रेण धीमता एवम् विसृज्यतान् सर्वान् राजा सम्पूर्णमानसः उवाससुखितस्तत्र पुत्रोत्पत्तिम् विचिन्तयन् ततो यज्ञे समाप्ते तु ऋतूनाम् ततश्च द्वादशे चैत्रे नावमिके तिथौ नक्षत्रेदिति दैवत्ये स्वोच्चसंस्थेषु पञ्चसु ग्रहेशु कर्कटे लग्ने वापतांदुना सह प्रोद जगन्नाथं सर्वलोकनमस्कृतं नद्राम दिव्यलक्षण संयुत विष्णोरधम महाभाग पुत्रीनंदनम लोहिताक्षमुम महा रक्ोष्ठ दुंदुभ स्वनम कौसल्याशु यथा वरेण देवानामदितिर्वज्रपाणिना भरतो नाम कैकेय्याम् यज्ञे सत्यपराक्रमः तुर्भाग सर्वै समुदितो गुणैः अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ वीरौ सर्वास्त्रकुशलौ विष्णोरर्थसमन्वितौ पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः सार्पे जातौ तु कुलीरे भ्युदिते रवौ राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः जगुः कलम् च गन्धर्वा ननृतुश्चाप्सरो गणाः पुष्पवृष्टिश्च खात्पतत् उत्सवश्च महानासीदयोऽध्यायाम् जनाकुलः रथ्याश्च जनसंवाध नटनर्तनसङ्कुलाः गायनैश्च विराविण्यो वादनैश्च तथा परैः विरजुर्विपुलास्तत्र सर्वरत्नसमन्विताः प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः अतीत्यैकादशाहम् तु नाम कर्म ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयीसुतम् कै सौमित्रिम् लक्ष्मणमिति शत्रुघ्नमपरम् तथा वसिष्ठः परमप्रीतो नामानि कुरुते तदा ब्राह्मणान् भोजयामास पौरजानपदानपि अददद्ब्राह्मणानाम् च रत्नोघममलम् बहू तेषाम् जन्मक्रियादीनि सर्वकर्माण्यकारयत् तेषाम् केतुरिवज्येष्ठो रामो रतिकरः पितुः बभूबभूयो भूतानाम् स्वयम् भूरिवसम्मतः सर्वे वेदविदशूराः सर्वे लोकहिते रताः सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः तेषामपि महातेजा रामः सत्यपराक्रमः इष्टः सर्वस्य लोकस्य शशाङ्क निर्मलः गजस्कंधेपृे रथचरिया सुनु पिता शुश्रूषणेत बाल्यात्भृति सुस्नो लक्ष्मण लक्ष्म लोक राम से भ्रतुर्ज्येषक शरीरता लक्ष्मण लक्ष्मी सपन्नो बहु प्राण इवापर न विना निद्राम् लभते पुरुषोत्तमः मृष्टमन्नमुपानीतमश्नातिरहितम् विना यदा हि हयमारूढो मृगयाम् यातिराघवः अथैलम् पृष्ठतोऽभ्येति सधनुः परिपालयन् भरतस्यापि शत्रुघ्नो लक्ष्मणा वरजो हि सः प्राणैः प्रियतरो नित्यम् तस्य चासीत् तथा प्रियः स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः बभूवपरमप्रीतो देवैरिव पितामहः ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः पितुशुश्रूषणरता धनुर्वेदे च निष्ठिताः अथ महात्मनः अभ्यागच्छन्महातेजा विश्वामित्रो स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाचः शीघ्रमाख्यातमाम् प्राप्तम् कौशिकम् गाधिनः सुतम् तच्छ्रुत्वापचलन्तस्य राज्ञो वेष्वप्रदुद्रुवुः सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ते गत्वा राजभवनम् तदा प्राप्तमावेदयामासु नृपा येक्ष्वाकवे तदा तेषाम् तद्वचनम् श्रुत्वा सपुरोधा समाहितः प्रत्युज्जगामसंहृष्टो ब्रह्माणमिव वासवः स दृष्ट्वा ज्वलितम् दीप्या तापसंशितव्रतम् प्रहृष्टवद राजा ततोऽर्घ्यमुपहारयत् स राज्ञः प्रतिगृह्यार्घ्यम् कुशलम् चाव्ययम् चैव पर्यपृच्छन्नराधिपम् पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च कुशलम् कौशिको राज्ञः पर्यपृच्छत्सु धार्मिकः अपि ते सन्नताः सर्वे ऋषींश्च तान्यथा न्यायम् महाभाग उवाचः ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् विविशुः पूजितास्तेन निषेधुश्च यथार्हतः अथ हृष्टम नाराजा महामुनिम् उवाच परमोदारो हृष्टस्तमभिपूजयन् यथामृतस्य सम्प्राप्तिर्यथा वर्षमनोदके यथा सदृशदारेषु पुत्रजन्मा प्रजस्य वै प्रणष्टस्य यथा लाभो यथा हर्षो महोदये तथैवागमनम् मन्ये स्वागतम् ते महामुने कञ्च ते परमम् कामम् करोमि किमुहर्षितः पात्रभूतोऽसि मे ब्रह्मम् दिष्ट्या प्राप्तोऽसि मा न अद्य जन्म जीवितम् च सुजीवितम् यस्माद्विप्रेन्द्रमद्राक्षम् सुप्रभाता निशा मम पूर्वम् राजर्षिशब्देन तपसाद्योतितः प्रभः ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया तदद्भुतमभूद्विप्रपवित्रम् परमम् मम शुभक्षेत्रगतश्चाहम् तव सन्दर्शनात् प्रभो ब्रूहि यत्प्रार्थितम् तुभ्यम् कार्यमागमनम् प्रति इच्छाम्यनुगृहीतोऽहम् त्वदर्थम् परिवृद्धये कार्यस्य न विमर्शम् च गन्तुमर्हसि सुव्रता कर्ता दैवतं दैवतम् हि भवान् मम मम चायमनुप्राप्तो महान् अभ्युदयो द्विजा तवागमनजः कृत्स्नो धर्मश्चानुत्तमो इति हृदयसुखम् निशम्य श्रुतिसुखमात्मवता विनीतमुक्तम् प्रथितगुणयशा गुणैर्विशिष्टः परमर्षः परमम् जगामहर्षम् इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः